अर्जुनाताय नम ओं अच्युताय नम ओं अमेयाय नम ओं चराचरपित्र नम ओं लोकपूज्या सभ्यतिकताय नम ओं अप्रमितय नम ओं पाथप्राथितदर्शनाय नम ॐ सहस्रबाहवे नमः ॐ विश्वमूर्तये नमः ॐ प्रसादप्रदर्शितविश्वरूपाय नमः ॐ वेदाद्यवेद्यविश्वरूपाय नमः ॐ पार्थभीतिप्रणाशनाय नमः ॐ सौम्यवपुषे नमः ॐ महात्मने नमः अनन्यभक्तिपरितुष्टाय नमः ॐ भक्त्यैकदृश्याय नमः ॐ भक्त्यैकगम्याय नमः ॐ गुणपूर्णाय नमः ॐ नित्ययुक्तोपासिताय नमः ॐ अक्षराय नमः ॐ अनिर्देश्याय नमः ॐ अव्यक्ताय नमः सर्वगाय नमः ओम् अचिन्त्याय नमः ॐ क्रूटस्थाय नमः ओम् अचलाय नमः ॐ ध्रुवाय नमः ॐ नियतेन्द्रियग्रामगम्याय नमः ॐ सर्वभूतहितरितरताय नमः ओम् अव्यक्ताशक्तचित्तगम्याय नमः ॐ कर्मसन्न्यासिसमुपास्याय नमः ॐ सगुणध्यायसन्तारकाय नमः ॐ समाधिविधायने नमः ॐ अभ्यासप्रशंसकाय नमः ॐ अभ्यासोपायकर्माराध्याय नमः ॐ क्षमिणे नमः ॐ सततसन्तुष्टाय नमः ॐ दृढनिश्चयाय नमः ियभक्ताय नमः ॐ समशत्रुमित्राय नमः ॐ सममानापमानाय नमः ॐ सङ्गविवर्जिताय नमः ॐ तुल्यनिन्दास्तुतये नमः ॐ मौनिने नमः ॐ अकारणसन्तुष्टाय नमः ॐ अनिकेताय नमः स्थिरमतये नमः ॐ सर्वकर्मफलत्यागप्रिणिताय नमः ॐ अद्वेष्टे नमः ॐ सर्वभूतमित्राय नमः ॐ करुणाय नमः ॐ भक्तियोगपरमाय नमः ॐ क्षेत्रक्षेत्रज्ञम् सर्वक्षेत्रक्षेत्रज्ञाय नमः ॐषिगीताय नमः ॐ छन्दोगीताय नमः ॐ ब्रह्मसूत्रपदगीताय नमः ॐ सविकारक्षेत्रदर्शिने नमः ॐमानिने नमः ॐदम्भिने नमः ॐहिंसकाय नमः ॐ क्षान्ताय नमः ॐ रुजपे नमः म् आचार्योपासकाय नमः ॐ शुचये नमः ॐ स्थिराय नमः ॐ निगृहीतात्मने नमः ॐ विरक्ताय नमः ॐ अनहङ्कृताय नमः ॐ जन्मानिदोषदर्शिने नमः ओम् असक्ताय नमः ओम् अनभिष्वक्ताय नमः ओम् इष्टानिष्टसमचित्ताय नमः ओम् अनन्ययोगभक्तिग्राहाय नमः ॐ विविक्तदेशसेविताय नमः ओम् अध्यात्मज्ञाननित्याय नमः ॐ गुणभोक्त्रे नमः ॐ भूतबायाय नमः ॐ भूतान्तराय नमः ओम् अचराय नमः पायप्रदर्शकाय नमः ओम् अनादिमते नमः ओम ॐ परब्रह्मणे नमः ॐ सदसदादिपदानुक्ताय नमः ॐ सर्वतःपाणिपादाय नमः ॐ सर्वतोक्षिशिरोमुखाय नमः ॐ सर्वश्रुतिमते नमः ॐ सर्वकाय नमः न्द्रियगुणभाषाय नमः ॐ सर्वेन्द्रियविपरिजिताय नमः ओम् अशक्ताय नमः ॐ सर्वभृते नमः ॐ निर्गुणाय नमः ॐ चराय नमः ॐ सूक्ष्माय नमः ॐ अविज्ञेयाय नमः ॐ दूरस्थाय नमः ॐ अन्तिकस्थाय नमः भूता विभक्ताय नमः